सुधा कल्याणदा कनकचम्पकदाम भूषा उत्तपेन कुचकुम्भमरो हराङ्गे वाणे न वामि मनसा वचसा विभू या वेदान्तार्थतस्तैकस्वरूपा परमेश्वरी नामरूपात्मना व्यक्ता सा मां पातु सरस्वती चतुस्वर्गेव ज्ञेयते अद्वैता ब्रह्मणा शक्ति शा मां पातु सरस्वती या वर्णपदवाक्यार्थ वर्तते अनादिनिधनानन्ता सा मां पातु सरस्वती अध्यात्मधिदैवं च देवानां सम्यगेश्वरे प्रत्यगास्ते वदन्ती सा मां पातु सरस्वती अन्तर्याम्यात्मना विश्वम् त्रैलोक्यं यान्यक्षति रुद्रादित्यादिरूपस्था सा मां पातु सरस्वती ्याद् प्रत्यदृष्टिभिजन्मान्नानुभूयते व्यापिरि याप्तिरोपैका सा वां पातु सरस्वती नामजात्यादिभिर्भेदै अष्टधाया विकल्पिता निर्विकल्पात्मना व्यक्ता सा मां पातु सरस्वती व्यक्ताव्यक्तगिरा सर्वे वेदाद्या सर्वकामदुःखाधेनो सा मां पातु सरस्वती या विदित्वाखिलं बन्धं निर्मध्याखिलवर्त्मना योगे याति परं स्थानम् सा पातु सरस्वती नामरूपयत्मकं सर्वं यस्यामा वेशतां पुनः ध्यायन्ति ब्रह्मरूपैका सा पातु सरस्वती चतुर्मुखमुखाम्भोज वनहंसधुर्मम माणशे रमतां नित्यं सर्वशुक्लां शरस्वती नमस्ते सारदेवि काश्मीरपुरवासिरे महं प्रार्थये नित्यं विद्यादानं च देहि मे अक्षसूत्राङ्कुशधरां पासपुस्तकधारिणी मुक्ताहारसमायुक्ता वाचि तिष्ठतु कम्बोकण्ठे सुतां रोष्ठे सर्वाभरणभूषिता महासरस्वती देवी जिह्वाग्रे सन्निवेश्यताम् या श्रद्धा धारणामेधा वाग्देवी विधिवल्लभा भक्तजेह्वाग्रसदना समादे गुणदायिनी नवामि यामिनी नाथ लेखारङ्कृतकुन्तलां भवानीं भव सन्ताप निर्वापणसुधानदीम् यकवित्वं निरातङ्कं भुक्तिमुक्तिं च वाञ्छति सोभ्यच्चैर्नाम् दशश्लोक्या नित्यं स्तोशर तस्यैवं नित्यं नित्यम् समभ्यर्च सरस्वतीं भक्तिश्रद्धाभियुक्तस्य तान्मासा प्रत्ययो भवेत् <laughs> ततः प्रवर्तते वाणी शीक्षया ललिताक्षरा गद्यपद्यात्मकैशब्दै अप्रेमे यै विवक्षितै अश्रुतो बोध्यते ग्रन्थप्राय सरस्वतकविः प्रायसारकविः